ai <laughs> girinan शैलसुते सुरवरवर्षिणि दुर्धरदर्षिणि दुर्मुखमर्षिणि हर्षरदे त्रिभुवन पोषिणि शङ्करतोषिणि नुजनि रोषिणि दितिसुतरोषिणि दुर्मद शोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रम्यकपद्दिनि मधुरे मधुकैटभगञ्जिनि कैटभञ्जिनि रासरते जय जय हे महिषासुरमद्दि रम्यकपर्दिनि शैलसुते ऐषदकण्ढवि कण्डितरुन्धवि तुण्डित शुण्ढ गजाधिपते गजगण्ड विदारण चण्ड पराक्रमशुण्ड मृगाधिपते निज भुजदण्ड निपातितकण्ड निपातितमुण्ड भटाधिपते जय जय हे महिषासुरमर्तिनि रम्यकपर्तिनि शैलसुते दुर्मद दुर्धर निर्जर शक्तिभृते चतुरविचार दुरीण महाशिव दूतकृत दुरित दुरीह दुराशय दुर्मदि दानवदूतकृतान्तमते जय जय हे सुरमर्दिम्यकपर्दिशैलसुते ऐ शरणागत वैरिवधूवरवीरवराभयताय करे त्रिभुवनमस्तकशूलविरोधिचिरोधिकृता रे जय जय हे महिषासुरमतिनिकपत्तिनिलसुते ऐ निज हुङ्कृतर निराकृत भू शोषित शोणित बीज समुद्भव शोणित बीजलते शिव शिव शुम्भ निशुम्भमहाहव तर्पित भूत पिशाचरते जय जय हे महिषासुरमतिरि रकपत्तिनि शैलसुते धनुरनुसङ्गरण परिस्पुरङ्गनटगे कनकपिषङ्ग का पृषक निशङ्ग दशत् बट शृङ्ग हतावटुके ऋत चतुरङ्ग सुरमर्तिनि र्यकपत्तिनि शैलसुते जय जय जप्य जये जय शब्द परस्तुति तत्पर विश्वनुते भण भण भिञ्जिभि मोहित भूतपते नटित नटादनटी नटनायक नाटितनाट्य सुगान हृदे जय जय हे महिषासुरमद्दिनि रम्यकपद्दिनि शैल सुते ऐ सुमन सुमन सुमन सुमन मेल <sumeno> Chita Mahahava Malla Matallika Mallita Rallaka Malla Rathay Virachita Vallika Pallika Mallika Nillika Bhillika Vargavrute Sitakrita Pulla Samulla Sitaru Na Talja Pallava Salalitay Jaya Jaya Himmahava Malla Matallika Mallita Rallaka Mallita Rallaka Mallara Rathay पत्तिनि शैन सुते अविरल गण्डगलं मदमे दुरमत्तमगङ्गज राजपते त्रिभुवन भूषण भूतकलानिधि रूप दलमल कोमल कान्ति कला कलितामल भाले सकल बिला सकला, सकला निलय क्रम एकुले हरि कुल संकुल कुवलय मण्डल मौनि बिलभुडाणि गुणे जय जय हे महिषासुरमर् पूजित लज्जित कोकिल मञ्जुमते मिलित पुलिन्द मनोहर गुञ्जित रञ्जित शैलनि गुञ्जगते निज पत्तिनि शैलसुते कटितटबीतदुकूल विचित्रमयू कतिरस्कृत ित कनकाचलमौनिपदोर्जित निर्भर कुञ्जर कुम्भकुचे जय जय हे महिषासुरवर्तिनिकपत्तिनि शैलसुते कमले कमलानिलये कमलानिलयश्च कथं न भवे तव पदमेव परं पदमित्यनुषीलयतो मम किं न जय जय हे महिषासुरवर्ति रं यथपत्तिशैलसुते कनकलस कलसिंहुजलैरनु सिञ्चिनुते गुणरङ्गभुवम् भजति सखिं न च शीकुचकुम्भस्तटी परिरम्भसुखानुभवम् तव चरणम् शरणम् करवाणि लतामरवाणि निवासि शिवम् जय जय हे महिषासुरमर्दिरितं यगपत् तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननुकूलयते किमु कुरुः तपुरेन्दुमुखी सुमुखी विरसौ विमुखी क्रियते मम तु शिवनामगले भवति कृपया किमुत क्रियते जय जय हे महिषासुरमतिनि रकपत्तिनि शैलसुते अयि मयि दीनदयानुतया कृपयैव त्वया भवितव्यमुमे ऐ जगतो सि तथानुमितासि रते यदुचितमत्र भवत्युररीकुरुता दुरुतापमपाकुरुते पा जय जयने महिषासुरमतीरं यगपत्तिनि शैलसु